अस्तु नववर्षस्य प्रथमं दिनं अस्माकं वर्गः सम्भाषणवर्गः प्रचलति ओगस्टमोदय प्रार्थनया आरम्भम् करोति वा सरस्वतीनमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा धन्यवादाः um, आरम्भं कुर्मः अद्यदिनस्य विषयः विशे विशेषतया वयं तस्य विषये अभ्यासं कुर्मः अद्यदिनस्य विषयः अस्ति अहं प्रथमं दातु विषयः वदामि अद्यदिनस्य विषयः अस्ति आहारः आहारः आहार इत्युक्ते किम् कोपि अन्वित् कृत्वा वक्तुं शक्नोति आहारः इत्युक्ते किं भोजनम् आहारः भोजनम् आहारः इत्युक्ते आहार भोजनम् इतोपि सत्यमस्ति परन्तु इतोपि भवन्तः सर्वे एतत् मा चिन्तयतु अस्माकं तु सम्भाषणवर्ग तत्र केचन अंशाः सन्ति तत्र व्याकरणविषयक अंशाः अपि सन्ति कथं तत् आहारः आगच्छति परन्तु आहारः विषयः आहारः इति विषयः तं स्वीकृत्य वयं रुचिवाचकशब्दाः तस्य अध्ययनम् अद्य अध्धे दिने कुर्मः अस्तु जयन्तिभगिनी उक्तवती आहारः इत्युक्ते भोजनम् अन्य कोऽपि स्वस्य मतप्रदर्शनं करोतु आहारः इत्युक्ते <coughs> जयन्तिभगिनी केवलं तत्र भोजनम् एवम् अस्ति न भगिनी खादनपदार्थं सर्वे अपि भवति रुचिः षड् रुचिः भवति खिल तदपि गुणान् अपि आदा आ, आ, आहारं सूचयति किल बि आहार आहारं गुणस्य अपि प्रतिनिधित्वम् अस्तु अस्तु सम्यक् सम्यक् मत अन्ये अपि वदन्तु अगस्ट् महोदय भारतमहोदय वीणा भगिनी किं चिन्तय भवन्तः सर्वेषां कृते चिन्तनं वदतु कः विचारः आहारविषयकः वदतु एकैकं कः वदति भारतमहोदय वदति वा फलम् इति आहारः फलम् इति सात्विक आहारः इति वक्तुं शक्नुमः सात्विक सात्विक राजसिक तामसिक तत्र भगवद्गीतायाम् अस्ति खलु आहारस्य त्रयप्रकाराः सन्ति अस्तु नहीं। नहीं। तत्र भारतमहोदय उक्तवान् फलं तत्र फलम् इति आहारः इतोपि अन्यकोपि वदन्तु सर्वे किञ्चित् हरति आहरति आहार अत्र बहु सम्यक् अत्र यः अन्ननलिकया आर्हीयते आर्हीयते आ इति उपसर्ग इत्युक्ते तत्र आहरणम् इत्युक्ते ग्रहणं ग्रहणं स्वीकरणम् आर्ह्यते इत्युक्ते आहार आहारः आङ्ग्लभाषायाम् आहारः इत्युक्ते डायट् डायट् इति सर्वे जा, जा जानन्ति इति मन्ये हा वयं सर्वे जानीमहे डायट् इति अस्ति आहारः इत्युक्ते डायट् आहरयत् इत्युक्ते परिगृह्णीयात् इति आहरणमिति ग्रहणम् अन्नपदार्थानां ग्रहणं यः अन्ननलिकया आह्रियते सः आहारः इति कथ्यते तत्र इति इत्युक्ते भुञ्जीत अनुभवेत् इति आहारः वेणी यः हरणं करोति सः आहारः इति वक्तुं शक्यते वा अत्र इस् वेरि इण्ट्रेस्टिङ्ग् पश्यन्तु सर्वे उपसर्गयोजनेन धात्वर्थ अन्यत्रं गच्छति तु mm. हरती तत्सत्यु mm. हरती हरण तथा वे जानी ऋक्णीह हरण हम भिन्न परा तपसर्ग पि उपसर्ग, उपसर्ग mm. आ उपसर्ग यदा mm. आ उपसर्ग योजना योजया तीक ग्रहण mm. आहरणम् अतः यः अन्ननलिकया आर्यते अन्ननलिका इत्युक्ते अस्माकं डैजेस्टिव् ट्राक्ट् यत् अस्ति तत्र यः अन्ननलिकया आह्रियते सह आहारः आहार इत्युक्ते ग्रहणम् अन्नपदार्थानां ग्रहणम् अतः तत्र आहरेत् इति शब्दयोजनेन तत्र भुञ्जीत अनुभू अनुभवेत् इति तत्र आहार इत्युक्ते जस्ट् गोन् फिडिङ्ग् इन्सैड् एवं mm -hmm. oh. mm -hmm. नास्ति तत्र उभवस्य विषये एवं खलु यदा अहं वदामि जयन्तीभगिनी भवत्याः साम्बारम् अहं ग्रहितुम् इच्छामि अहं खादितुम् इच्छामि तत् कथं भवति एतस्मिन् क्षणे एव मम चिन्तने तत् आगच्छति खलु दृष्ट्या रक्तदृष्ट्या तत्र के के घटकाः भवती उपयोजयति तत् सर्वस्य अपि चिन्तनं तत्र भवति आहारः तत्र आहारस्य विषये रसानां चिन्तनं रुचेः विषयी चिन्तनं स्वास्थ्यविषयचिन्तनं पोषणमूल्यानि कानि पोषणद्रव्याणि कानि तस्य चिन्तनं सन्तोलित आहार तस्य अपि चिन्तनमस्ति स्वास्थ्यस्य स्वास्थ्य उपरि के के क्षम्यता के के घटः स्वास्थ्यवर्धकाः सर्वस्य चिन्तनम् अत्र भवति आहारस्य स्वास्थ्य आहारस्वास्थ्ययोः परस्परसम्बन्धः वर्तते वर्तते वा न वा वदन्तु वर्तते वा न वा सत्यं डायटिस् रिलेटेड् टु हेल्त् यस् सर् नो वदतु तत्र सम्बन्धः आहारस्वास्थ्ययोः परस्परसम्बन्धः वर्तते कः सम्बन्धः कः सम्बन्धः द्वयत्रयवाक्यं वदतु आहारः स्वास्थ्य द्वयोः मध्ये कः सम्बन्धः कः वीणा भगिनी वदति वा प्रयत्नं करिष्यामि भगिनि हा प्रयत्नं करिष्यामि पौष्टिक आहार आहारसेवनेन स्वास्थ्यं सम्यक् भवति रोग रोगरहितः भवति सम्यक् सम्यक् रोगाणाम् अभावः रोगरहितः अस्तु सम्यक् इतोपि अन्यकोपि सत्यं भगिनि अन्यकोपि वदतु यत् yes, मनसि आगच्छति तत् वदतु अवस्म आहारं सात्विकं भवतु इति कृष्णः वदति भगवद्गीतायां सत्यं सत्यं सत्यं तत्र श्लोकः अस्ति भवती स्मरति श्लोकं स्मरति वा भगिनी बैहाट् नैम् बै हाट् ऐ मीन् ऐ डोन् सत्यं सप्तदशे सप्तदश अध्याये तत्र सत्यं सत्यं सत्यं सत्यं वयं कुर्मः तत् सत्यं इतोपि अगस्ट् महोदय वदति वा Health and diet, are they हेल्त् डायट् आर् दे रिलेटेड् टु करोतु सात्विक् भोजनम् आहरेत् सम्यक् आरोग्यम् अनुभवति आरोग्यस्य स्वास्थ्यस्य रक्षणं भवति सत्यं सत्यं सत्यम् hmm. अगस्टुमहोदय प्रयत्नं करोति वा वदति वा कटितव्यं फार् गुड् हेल्त् स्वस्थाय स्वच्छाय भवति अस्तु अस्तु त्र आहारीवन से कारण हाँ युक्ताहार विहार से युक्चे कर्मसु युक्तवनावोध से योगो दुख तहार्ब महत्वपुराणु तना सी जना आसन ये पाकद्यां जान जनाः आसन् तत्र नलः इति अस्ति भीमः पाककलायां निपुणः भीमः महाभारते तद् पाककलायां निपुणः अस् आसीत् इत्युक्ते आहारभक्षणेन शरीरस्य सर्वाणि अङ्गानि पुष्पाणि भवन्ति इतोपि एकं श्लोकम् अस्ति तत्र अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्ता चाम्यन्नं चतुर्दिनं यत्र आहारस्य महत्त्वं भगवद्गीतायाम् अपि वर्णितं दृश्यते <laughs> यदि <या> दूषित <दी, laughs> <या दी laughs> आहारस्य ग्रहणं भवेत् <laughs> वा असन्तुलित आहारस्य ग्रहणं भवेत् तेन किं भवितुमर्हति सम्यक् सम्यक् स्वास्थ्यस्य स्वास्थ्ये हावी स्वास्थ्यहां यदि दुषित आहार स्वीकु वित आहारेण अस्थ्य विषय उपस्थापन तत् अस्ं करीय प्रथमत तो त्रक श्लोक स्क्रीन शेर कौक निमेश पाकशास्त्रं तत्र पाकशास्त्रम् इति पाक महत्त्वपूर्णशास्त्रं चतुष्षष्टिकला सर्वे जानन्ति तत् कलासु पाकशास्त्रं महत्त्वपूर्णकला इति अस्ति वा अत्र एकं श्लोकमस्ति जयन्ति भगिनि आम् अत्र श्लोकमस्ति पठति वा आम् पठामि वीन् कट्वां लवनात्युष्णतिक्षतीक्ष्ण वृक्षविदाहिनः आहाराराजसस्येष्टा दुःखशोकामयप्रदाः अत्र कट्वाम्ल लवणवण अति उष्णतीक्ष्ण सिक्स् रुचि वदति बेनि कट्व अमलवन उष्णतीक्ष्णवृक्षिक्स् रुचिस् वृक्ष विदाहिनः विदाहिन तदहं वदामि किमस्ति अग्रिमं किमस्ति आहारा राजसस्यष्टाः शोक दुःखशोका मयप्रदाः दुःख ऐ मीन् द फुड् क्रियेट्स् दुःखं शोकं भवति दुःखस्य शोकस्य कारणं भवति अति अति उष्णम् अति लवणं कटु इति ऐ मीन् एक्स्ट्रीम् लेवल् आफ् दिस् टेस्ट् सुखम् आमय इत्युक्ते रोगः रोगमय रोग रोगजनक इत्युक्ते तत्र अतिशब्द पश्यन्तु कटुं कटु आम्ल लवण अनन्तरम् शब्द अस्ति तत् अति तत्र अतिकटुः mm. अति mm. आम्लः अतिलवणः अनन्तरम् अतितीक्ष्णः क्षम्यतां mm. प्रथमतः तु अति अनन्तरम् mm. अतिवृक्षः अतिविदाहिनः mm. एक्सेसिव्लि mm. स्ैन् साल्टि <coughs> एक्सेसिव्लि कटक्त्वा तत् अति उष्ण एनिथिङ्ग् विच् इस् mm. इन् एक्सेस् अति गोस् वित् आल् दोस् वर्ड्स् mm. तेन किं भवति mm. राजसस्य इष्टाः इत्युक्ते राजस राजसमनसः hmm. इष्टाः इत्युक्ते प्रियाः प्रिया, hmm. प्रिया। hmm. दुःखशोक आमयप्रदाः तेन किं भवति आहारात् अनन्तरं मनसि hmm. दुःखः शोकः hmm. अनन्तरं रोगाः जनयति आहारात् अनन्तरं मनसि क्षोभभावना जनयति रोग रोगवर्धनं भवति अनन्तरं तत्र शोकभावना दुःखभावना mm. इत्युक्ते समुचित षड्रससेवनम् mm. इति आवश्यकम् शब्द तत्र सप्तसु अपि तत्र नियोज्य अतिकटु अति अतिकटु अति आम्ल अतिलवण अति उष्ण अतितिक्ष्ण अतिवृक्ष अतिविदाहिन इदानीम् अतिकटुः इत्युक्ते किं कटुः इति कः रुचिः का रुचिः आम्ल इत्युक्ते का रुचिः लवणः इत्युक्ते का रुचिः तत्र तिक्ष्ण वृक्षविदाहिन तत्र रुचिः इति न परन्तु तीक्ष्ण इति वदामः चेत् तीक्ष्णवृक्षः वृक्षः वदामः चेत् तत् स्नेहवर्जिते वर्जिता तत्र वृक्ष इत्युक्ते ड्राय् इति वक्तुं शक्नुमः mm. अती, तत्र स्नेहः नास्ति इत्युक्ते एक्सेसिव्लि रोस्टेड् इति वक्तुं शक्नुमः हा इत्युक्ते अति अतीव मात्रा अस्ति तत्र अनन्तरं विगाहिन इत्युक्ते स्थापकराः बर्निङ्ग् सेन्सेसन् जनयति विदाहिन कठिनः विशेषतया दाहिनः इत्युक्ते तत्र तापकराः वा सन्तापकः भावनानां प्रकटीकरणं प्रकर्षेण भवति उद्दीपनं भवति तादृश आहारः अतिविदाहिन आहार राजसस्य इष्टाः इष्टा इत्युक्ते राजसस्य मनुष्यस्य कृते प्रियाः तेन भवति दुःखं जनयति शोकं जनयति योगवर्धनं भवति तत्र देर् आर् टु मेनि कैण्ड्स् एण्ड् देन् राजसमनुष्यः यः अस्ति सः किं करोति गेट् हि गेट्स् इन्वाल्ड् इन् मेनि कैण्ड्स् आफ़् वेरियस् कैण्ड्स् आफ़् प्रिपरेशन् जस्ट् टु सेटिस्फै हिस् पेलेट् आर् जस्ट् टु सेटिस्फै हिस् हङ्गर् हाट् पञ्जण्ट् हा तत्र तीक्ष्ण इत्युक्ते हाट् पञ्जण्ट् इति वक्तुं शक्नुमः then of uh, what will happen to that then water dripping down and then tears coming out from the eye fictional it is <laughs> ah <laughs> atra asmakam adhyayanasya visayah ruchi vachak shabda ah ruchi ruchi vachak shabdaah ke ke shabdaah ruchim pradarshayanti asmakam visayah asti pashyamah तत्र एकः सम्भाषणमस्ति तत् वयं पठामः अनन्तरम् अभ्यासस्य विषये अत्र पुत्रः भवति पुत्रः भवति ओगस्ट् महोदय वीणाभगिनी माता भवति एतत् सम्भाषणं पठतु पुत्रः अम्ब किम् आद्य क्वथितं किम् आद्य क्वथितं बहु कटु अस्ति बहु कटुः अस्ति इत्युक्ते तत्र क्वथितम् इत्युक्ते क्वथितम् इत्युक्ते किं कोपि जानाति वा दाल् साम्बार् टैप् आफ़् ति करेक्ट् करेक्ट् साम्बार् इति वक्तुं शक्नुमः कटु अस्ति कटु इति वदति पुत्र वदति अम्ब हे अम्ब किम् अद्य बहु कटुः अस्ति कटु इत्युक्ते युगे अंशे स्पाैसि इति हा मरीचिका चिलि बहु कटु अस्ति इति पुत्रः वदति माता किं वदति विना भगिनी तर्हि क्वथितं मा तर्कं परिवेषयामि तक्रं परिवेषयामि तक्रम् इत्युक्ते बटर् मिल्क् भोजनान्ते तक्रम। तक्रम् तक्रं परिवेषयामि, परिवेषणम् इत्युक्ते सर्वी पुत्रः वदति क्वथितं बहु कतु अस्ति माता वदति अस्तु तक्रं पिबतु तक्रं परिवेषयामि पुत्रः पठतु आगस्ट् मध्ये अत्र नेक्स्ट् टेस्ट् आम्लम् आम्ल इत्युक्ते आम्ल इत्युक्ते आम्ल हा इत्युक्ते तत्र लिम्बु जम्बीरफलमस्ति खलु लिम्बु इत्युक्ते जम्बीरफलं तस्य तस्य रुचिः आम्लम् इति आम्ल साटेस्ट् अस्तु इदानीं माता किं वदति भवान् भाव... तु केवलं मधुरम् इच्छति एतत् मोदकं खादतु बहु मधुरम् अस्ति दिस् इस् दि नेक्स्टे मधुरं शर्करा मधुरा चाकलेह मधुरः मोदकं मधुरम् एतत् मोदकं खादतु तत् मधुरम् इच्छति बहु मधुरम् अस्ति मोदकं मोदकम् मोदकम इत्युक्ते मोदकं गणपति गणपति स्वामिक् इष्टपदार्थं भवति सम्यक् अद्यदिने रुचयः पदार्थाः एवमेव अस्माकं विषयः मधुरं मोदकं तत् नारिकेलफलं तत्र अस्ति नारिकेलफलम् अनन्तरं तत्र मधुरं गू् वा तत् जागरी उपयुज्य तत् मोदकं प्रसादरूपेण गणपति गणपतिबाप्पा यदा आगच्छति तस्य पुरतः तत् प्रसादरूपेण जनाः तत्र स्थापनं करोति मोदकं माता वदति भवान् तु केवलं मधुरमेव इच्छति एतत् मोदकं खादतु बहु मधुरमस्ति अनन्तरं पुत्रः किं वदति मधुरम् अस्ति मोदकं तु मधुरमेव तु अस्ति एव सत्यमम्ब एतत् मधुरमस्ति अग्रिम् सारवेलस्य व्यञ्जनम् अस्ति किञ्चित् परिवेषयामि वा किं वदति पुत्रः तिक्तं भवति, अहं hmm. तिक्तं न इच्छामि किञ्चित् लवणं परिवेशतु अत्र रुचिः तिक्तः तिक्त इटर् टेस्ट् इति अस्ति कारवेलं कारवेलं इति इति, कारवेलं तिक्तं भवति कारवेलम् अनन्तरं तत् मेथिका मेथि मेथि ति, तिक्तिक्तम् अनन्तरम् इतोपि किं वदामि तत्र निम्बः निम्ब निम्ब निम्ब कडु कडुनिम्ब इति अस्ति खलु तिक्तं भवति तिक्तम् इत्युक्ते बिट बिटिस् कारवेलं न इच्छामि माता किञ्चित् लवणं परिवेशयतु रुचि प्रथमः कटु अनन्तरम् आम्लं मधुरम् अनन्तरं तिक्तम् अनन्तरं लवणं माता किं वदति पठतु स्वीकरोतु आमलकस्य अवलेहं किञ्चित् परिवेशयामिवा? वा अवलेहम् इत्युक्ते पिक्ल तत्र उपदंशम् अपि एकः तत्र इतोपि एकः शब्दः पिकल् इति हा आमलकस्य आमलक इत्युक्ते आम्ल आम्ल आम्ल तो तत्र आमलकस्य रुचिः कषायः इति रुचिः एस्ट्रिञ्जेण्ट् इति वदामः वक्तुं शक्नुमः किञ्चित् तत् एस्ट्रिञ्जेट् सार्ट् आफ़् sort of कषायः अग्रिमे पुत्रः वदति आमलकस्य किञ्चित् परिवेशयामि वा माता पृच्छति पुत्रः किं वदति पठतु अस्तु परिवेशयतु अम्ब आमलकस्य रुचिः कषायः कषायः एस्ट्रिञ्जेण्ट् इति रुचिः कषायः अस्ति माता किं वदति तर्हि जम्बी जम्बीरस्य अवलेहं स्वीकरोतु जम्बीर इत्युक्ते लेमन् लेमन। लेमन। लेमन। जम्बीरफलस्य अवलेहम् अवलेहं कस्य कस्य अवलेहम् आमलकस्य अवलेहम् जम्बीरफलस्य अवलेहम् अवलेहं पिकल् अवलेहं स्वीकरोतु अनन्तरं पुत्रः किं वदति पठतु दातु <laughs> अस्ति <अंबा। laughs> जम्बीर जम्बीरफलं सोरिण्टेस् लाइक लेमन, लेमन, जम्बीरफलं सोरिन् टेस् स तु आम्लः अस्ति अम्ब पुत्रः वदति माता किम वदति भवान् तु मधुरम् एकमेव इच्छति परन्तु शरीरस्य वर्धनार्थं सर्वविधाः ऋतयः अपि आवश्यकाः एव माता वदति सदैव मधुरं एव भवान् इच्छति तत् न योग्यम् अपि शरीरवर्धना सर्विधा ऋचय अभी आवश्यक सर्विध मधुर आम्ल कटु कषाय ति लवण सर्विधि अस्ट ऋचया शरीरवर्धन शरीरवर्धना शरीर, शरीर वर्धना शरीर आवश्यक आवश्यका, आवश्यका <coughs> हा इति दत्तमस्ति अत्र रुचयः विषये तु वयं सर्वे ज्ञातवन्तः परन्तु एकं व्याकरण अंश एकः व्याकरण अंशः यत्र अस्ति तत्र पश्यन्तु कटुः मधुरम् अनन्तरं तिक्तः वा कषायः एते सर्वे गुणगुणवाचकाः रुचिवाचकाः रुचि इति गुणः खलु गुणवाचकः अत्र गुणवाचकः पश्यन्तु तत्र केचन शब्दाः अवधानं ददा ददातु सर्वे अत्र एव अवधानं ददातु केचन शब्दाः केवलं गुणवाचकः अस्ति इत्युक्ते यदा अहं वदामि तस्य श्रद्धा अस्ति तस्य श्रद्धा अस्ति तस्य शास्त्रेषु श्रद्धा अस्ति इति अहं वद वदामि तत् श्रद्धा इति गुणः केवल तत्र गुण सूचयति अनन्तरं केचन शब्दाः गुणिवाचकः गुणः अस्ति गुणि किं नाम गुणि गुणि इत्युक्ते वदतु गुणि यस् यस्मिन् अस्ति सः गुणि गुण यस्मिन् अस्ति सः इदानीं hmm. तत्र सुन्दर्य सौन्दर्यम् अस्ति तत् अहं किं वदामि सः सुन्दरः गुणा गुणिवाचकः सः सुन्दरः अत्र सुन्दरः मनुष्यः सुन्दरः बालकः सुन्दरा बालिका सुन्दरं पुस्तकं हा सुन्दरम् उद्यानं सुन्दरं पुष्पं सुन्दरं पर्णम् एवमस्ति सुन्दरः वृक्षः सौन्दर्य यस्मिन् अस्ति सौन्दर्यं यस्मिन् अस्ति सः सुन्दरः यथा भगिनी उक्तवती गुणेन युक्तः गुणः यस्मिन् अस्ति सः गुणि अस्तु इत्युक्ते तत्र केचन शब्दाः गुणवाचकाः गुणस्य आश्रयः तत्र नास्ति इत्युक्ते श्रद्धा वा भयं हा मनसि भयमस्ति भयम् इति गुणः शक्तिः शक्तिः इदानीं शक्तिमान् इति वदामः चेत् तत् मनुष्यस्य विषये वा मनुष्यस्य विषये वा भगवतः विषये तत् शक्तिमान् इति परन्तु केवलगुणशक्तिः इति वदामि वा श्रद्धा इति वदामि वा धैर्यम् इति वदामि चेत् केवलगुणवाचकः विशालः सुन्दरः उत्तमः इति वदामः चेत् उत्तमः उत्तमः इति गुणः सः बालकेषु सः बालके वर्तते इत्युक्ते उत् बालकः उत्तमः इति वदामि चेत् उत्तमः इति मुणिवाचकः गुणिवाचकाः गुणवाचकाः परन्तु रुचिवाचकाः शब्दाः यत् वयं ये शब्दाः वयं पठितवन्तः ते शब्दाः गुणवाचकाः अपि गुणिवाचकाः अपि अत्र मधुरः इति वदामि मधुरः किं सूचयति गुणवाचकः यदा अस्ति चेत् हा वदतु भगिनि न न स्वीट्नेस् इति उक्तवती हा स्वीट्नेस्ट् सूचयति सत्यं तत् मधुरः इति गुणवाचकः परन्तु यदा अहं मधुररसयुक्तं शर्करा गुणिवाचकः भवति शर्करा इदानीम् अहं कथं वदामि मधुरा शर्करा इति वदामि केल तुण दर्शय वामी मधुर अश्यं अोदक मधुर बादी हाँ त्रेल टिक्त वेलम नपुसकिंगे टिम अ पुसकिंगे पर आमलकि कषा ऋचि कषा यदा गुण की दर्शय शब्द से योजना करनीय चे तदा मधुरः पुल्लिङ्गे एव मधुरः तिक्तः एवं भवति परन्तु अहं मुनिवाचकः रूपेण वदामि चेत् तत् त्रिषु लिङ्गेषु मधुरः एव शा, शाकः इति वदामि मधुरः शाकः मधुरा शर्करा मधुरं तक्रं मधुरं मोदकं मधुरं पक्वान्नम् एवं वदामि परन्तु यथा गुणः कह गुणः मधुरः गुणः कह गुणः तिक्तः गुणः कह गुणः आम्लः गुणः कः गुणः कषायः गुणः कः रुचिः कषायः रुचिः कः रुचिः आम्लः रुचिः एषः वेद सर्वेषाम् अवगमनम् अवगत्वा पुनः एकवारं स्पष्टमस्ति वा पुनः स्पष्टमस्ति भगिनी तत्र व्याकरणः अंश इति गुणवाचकाः अपि रुचिवाचकशब्दाः गुणवाचकः अपि अस्ति गुणिवाचकाः अपि गुणवाचकाः तथैव गुणिवाचकाः यदा गुणवाचकत्वेन आगच्छन्ति तदा पुल्लिङ्गे एव भवति कटुः अस्ति तत्र प्रथमे वाक्ये कटुः इति अस्ति तत् कटुः अस्ति तत् विसर्गस्य लोपः अभवत् कटुः कटुः इति पुल्लिङ्गे एव परन्तु मुनिवाचकः यदा क्वथितम् आगच्छति चेत् तत् न पुषकलिङ्गे त्रिषु लिङ्गेषु भवति हा त्रीलिङ्गे तत्र विशेषणविशेष्यभाव प्रवर्तते यदा त्रिषु लिङ्गेषु आगच्छति चेत् हा प्रष्टव्यमस्ति वा वक्तुमिच्छति वा कोऽपि अस्त तस्त स्मर्तव्यं रुचिवाचका शब्द ये सी ते गुणवाचका तथा गुणिवाचक गुणी गुण है ये गुणिवाचक अभी गुणवाचका तभी किगत आहार पदार्थ तधु आमल लवण है कटुः कषायः तिक्तः इति षड्विधेषु रसेषु कश्चन तु भवति एव तत्र इत्युक्ते तत्र इदानीं पश्यन्तु तत्र पुत्रः वदति आम् आमलकस्य अवलेहम् अनन्तरं जबीरस्य अवलेहं तत्र जबीर जम्बीरसं क्षमतां जम्बीरस्य अवलेहं तत्र शर्कराम् अपि भवितुम् अर्हति परन्तु आहारद्रव्याणां स्वाभाविकः गुणः प्रकृतिः प्रकृतिः इत्युक्तौ स्वाभाविकगुणः सा स्वाभाविकगुणः यत् अस्ति तस्य रुचिः इति नाम स्वाभाविकतया कारवेलं स्वाभाविकतः कारवेलं तिक्तम् अस्ति इति अस्ति शर्करा मधुरा अस्ति स्वाभाविकतया प्रकृतेः स्वाभाविकः गुणप्रकृतिः किं तस्मिन् विषये दत्तमस्ति इदानीं पश्यामः अग्रिमे एतत् प्रथमं कुर्मः अस्तु अग्रिमे तत् अम्बिकापतिमहोदय पठति वा एतेषाम् उत्तरं लिखतु एतेषाम् उत्तरं लिखतु प्रथमं क्वथितं कथम् अस्ति तत्र स्पैसि हा सत्यं तत्र कटु कटुः अपि भवितुमर्हति क्वथितं न कटुं कटु कटुः अपि भवितुमर्हति वा तत्र कषायः अपि अस्तु कटु hmm. तत्र सम्भाषणस्य आधारेण तु वयं कटु अस्ति हा सत्यम् अग्रिमं तक्रं hmm. तक्रं कथम् अस्ति तक्रं hmm. uh, uh, मधुर किं वदति तक्रं तक्रं किं तक्रं hmm, परिवेशयतु पश्यतु तक्रं बहु तक्रम् आम्लम् आम्लं, आम्लं।, आम्लं। सोरि टेस्ट् तक्रम् आम्लम् अग्रिमम् तक्रम आम्लम् अस्ति किं तिक्तं भवति किं तिक्तं भवति करवे सत्यं कारवेलं तिक्तम् भवति अग्रिमम् अग्रिमम् आम आम्लकस्य रुचिः का आमलकस्य रुचिः आमलकस्य रुचिः आमलकस्य रुचिः मधुरं बहु आमलम् अत्र अस्ति खलु रुचिः मधुरमस्ति कषायः कषायः अस्ति आमलकस्य रुचिः कषायः कषायः अस्ति आमलकम् इत्युक्ते आम्ला इति अस्ति खलु तत् किञ्चित् एस्ट्रिजन् इति कषायः अस्ति आमलकस्य रुचिः कषायः अस्ति अग्रिमम् अग्रिमं भवान् किम् इच्छति इति माता पृच्छति तथा पुत्रः किं वदति भवान् तु भवान् मधुरम् इच्छति मधुरमेव इच्छति पुत्रः मधुरम् एव इच्छति अनन्तरं प्रश्नः अस्ति भवान् गुटस्य रुचिः का गुटस्य गुटस्य अर्थं किं गुटार्थं जाग्री जाग्री गुडस्य रुचिः मधुरः इति उल्लिङ्गे मधुरः इति अस्ति सम्यक् धन्यवादः धन्यवादः भारतमहोदय पठति वा एतानि वाक्यानि पठतु अशुद्धानि वाक्यानि शुद्धानि करोतु यथा गुडस्य रुचिः कटुः न गुडस्य रुचिः मधुरः तत्र अशुद्धानि वाक्यानि अपि सन्ति अस्माभिः किं करणीयं शुद्धीकरणं करणीयम् गुडस्य रुचिः कटुः इति सः वदति इति वाक्यं दत्तमस्ति तत् रुचिः कटुः अस्ति वा स्पैसि अस्ति वा जागरी अस्ति न गुडस्य रुचिः मधुरः इति वदति अग्रिमं पठतु मरीचिकायाः मरी, मरीचिकायाः रुचिः <laughs> मधुरः न मरीचिकायाः कटुः सत्यं कटुः सत्यं सत्यम् आम्रफलस्य रुचिः तिक्तः आम्रफलस्य आम्रफलस्य रुचिः कषाय आम्र आम्रफल मेङ्गो मेङ्गो इति मधुरः मधुरः आम्रफलस्य रुचिः रुचिः मधुरः मधुरम् आम्रफलम् इति अस्ति रुचिः मधुरः अग्रिमम् औलेहस्य रुचिः मधुरः औलेह what is the meaning of apical uh, oh, yeah. okay पिकल् ओके औलेहस्य रुचिः आम्लः अग्रिमं katuhu रुचिः कटुः तिन्त्रीणायाः तिन्त्रिण्याः तिन्त्रिणी शब्दस्य षष्ठी तिन्त्रिण्याः तिन्त्रिणी इत्युक्तेड् इति अस्ति खलु तस्याः कटु अस्ति वा am आम्लः योग्यं तिन्त्रिण्याः रुचिः आम्लः उत्तमं महोदय उत्तमम् उत्तमम् धन्यवादः उत्तमं महोदय धन्यवादः इदानीम् आहारः इति विषयः अस्ति तत् वयम् अग्रे नयामः एका कथा अस्तु जयन्तिभगिनी आरम्भं करोतु पठनस्य इति कथायाः नाम वा भगिनि न वा महर्षि महर्षिचरकः आयुर्वेदस्य प्रसारम् सम्पूर्णदेशे कर्तुम् इच्छति स्म जनाः तस्य अधिकतम अधिकतमम् अधिकतमम् लाभम् लभन्ते लभन्ते येन हेतुना सः आयुर्वेदस्य सर्वान् ग्रन्थान् टिप्पणीं कृत्वा जनेषु प्रसारं कृतवान् महर्षि चरकः चरकमहर्षि आयुर्वेदस्य प्रसारं सम्पूर्णतया देशस्य सर्वे जगाः सर्वे देशे ऐ मीन् पू पूर्णदेशे प्रचारं कृतवान् जनाः प्रजाः अधिकतमं लाभम् ऐ मीन् जनाः तस्य उपयोगं सम्यक् कृत कृतवन्तः सन्ति सः आयुर्वेदस्य सर्वान् ग्रन्थान् महर्षिः महर्षिचरकः सर्वेषु ग्रन्थेषु टिप्पणीं कृत्वा जनेषु प्रसारं कृतवान् जनेषु आयुर्वेदस्य प्रयोजनम् उक्तवान् एकस्मिन् दिने महर्षिः चिन्तितवान् ए जनाः तान् नियमान् अनुसरन्ति ते रोह रोगरहिताः सन्ति वा न वा इति Hmm. Uh, एकस्मिन् दिने uh, महर्षिः uh, स्वयं चिन्तितवान् अस्ति hmm. uh, जनाः uh, एतस्य uh, आयुर्वेदस्य uh, उपयोगं कर्ति uh, कर्तुं विमुक्तः रोगात् विमुक्तः वा न hmm. वा इति चिन्तितवान् रोगात् विमुक्तः इति सर्वान् mm -hmm. ग्रन्थान् टिप्पणीं कृत्वा इत्युक्ते साररूपेण सः uh -huh. ग्रन्थलेखनां uh -huh. कृतवान् अनन्तरं uh -huh. ये नियमाः सन्ति तत्र आयुर्वेदेयमान् पालनं कृत्वा जना रोगरहितावानवा वा न वा इति सः द्रष्टुम् इच्छितवान् हा अस्तु अग्रिममपि पठितु वाक्यद्वयं पठितु महर्षि महर्षिः पक्षिरूपं धृत्वा को रुकु कः नी नीरोगः भवति इति उद्द उद्देशितुम् आरब्धवान् एकवारम् महर्षिः पक्षिरूपं धृतवान् पक्षिरूपं धृत्वा कः निरोगी भवति रोगनिवर्तकः भवति इति उद्देशितुम् आरब्धं कृतवान् अस्ति यदा वैद्याः शृण्वन्ति स्म तदा केचित् किञ्चित् औषधं सूचितवन्तः हलो एकनिमिषम् आम् किं दृश्यते आं भगिनि दृश्यते दृश्यते अद्य दृश्यते यदा वैद्याः शृण्वन्ति स्म स्म एषः विषयः वैद्याः शृण्वन्ति स्म तदा केचित् किञ्चित् केचित् ऐ मीन् केन रूपेण किञ्चित् औषधं सूचितवन्तः केचित् इत्युक्ते भगिनी केचित् इत्युक्ते केचन जनाः केचन जनाः किञ्चित् औषधं सूचितवन्तः अग्रिमे करिष्यति इति तावत्पर्यन्तं पठतु केषाञ्चन केषाञ्चन मतम् आसीत् चूर्णं साहाय्यं करिष्यति केषाञ्चन मतम् आसीत् भस्मं रोगान् दूरं करिष्यति इति uh -huh. केचन जनाः चिन्तितवन्तः चूर्णं uh -huh. सोल्यूशन् ददाति ऐ I मीन् mean, साहाय्यं करो करिष्यति इति hmm. केचन चिन्तयति hmm. भष्मं विभूति टैप् आफ् तिङ्ग्स् ऐ I mean, रोग रोगनिवारणं करोति इति चिन्तितवन्तः सम्यक् सम्यक् धन्यवाद धन्यवादः अत्र किं भवति कः निरोगः भवति महर्षिचरकः आयुर्वेदाचार्य सः पक्षिरूपं धृत्वा तत्र कोरुक् कोरुक् कोरुक् इति कः निरोगः भवति कस्य आश्रयस्य मनुष्यः रोगरहितः भवति तत्र वैद्याः सन्ति ते उक्ता वैद्याः शृण्वन्ति स्म वैद्याः आसन् ते उतव अस्त एक औदम तस्िष प्रकारेण यदि तरह ग्रहण भवन रोगा रोगा मुक्तताूर्ण साय कूर्ण से सर्वे जनाग रोग मुक्त रोगरहिता अनतर भस्म भस्म दूर क्यों भिन्नाः जनाः तत्र भिन्नप्रकारेण मतप्रदर्शनम् कृतवन्तः पक्षिरूपमस्ति तस्य पक्षी, तस पक्षी तत्र कोरु कोरु इति पृच्छति गहनि निरोगः भवति परन्तु इदानीम् अग्रिमम् किम् अस्ति तत् विना भगिनी पठतु परन्तु महर्षिः तत् आरभ्य परन्तु महर्षिः एतेः न सन्तुष्टः केचन जनाः अग्रे आगत्य अपि तथैव कोलाहलं कर्तुम् आरब्धवन्तः इत्युक्ते किम् महर्षिः एतेन न सन्तुष्टः अभवत् तत्र समाधानकारकपर्यायः नास्ति चूर्णस्य चायेन रोगमुक्तता वा औषधपेरोक्त हे तत तत इत। इत। आगरीण। आगरीण। एतत। एतत ः रोम तत् महर्षिः तत न अपेक्षितवान, हा सन्तुष्टः अनन्तरं केचन जना तत्र आगतवन्त, कोलाहलं कर्तुम् आरब्धवन्तः अग्रिम एतत् श्रुत्वा महर्षिः वाग्भटः प्रत्युवाच वाग्भटः इति नामःभटः इति महर्षेः नाम सः आगती स्म सह प्रतिवाच उच संजयउवाच धुतराष्ट्र उवाच वच धा त्रोक्षभूत वाच, रिमोट पास्ट्रेन्थ हाँ अतः त्र उवाच इति अस्ति, हाँ उवाच वाग्भ कि पठत अग्रिम विद्युत हितभुक् मितभुक् ऋतभुक् इति उत्तरं पूर्णम् इति अवगत्य महर्षिः चरकः सन्तुष्टः जातः महर्षिचरकः किम् उत्तरं प्राप्तवान् सः उक्तवान् आहारं न न केवलं तत्र किं हितभुक् हितबुक् हितभुक् मितभुक् ऋतभुक् वाग्भटेन उत्तरं दत्तं हा वाग्भेटेन तत्र हितभुक् मितबुक् ऋतबुक् इति वाग्भटस्य उत्तरं हा हितभुक् मितभुक् ऋतभुक् उत्तरं पूर्णम् इति अवगत्य महर्षिचरकः सन्तुष्टः जातः महर्षेः मनसि एवम् उत्तरम् एव आसीत् हितबुक् मितबुक् ऋतबुक् इदानीम् अस्माभिः अवगन्तव्यम् हितबुक् इत्युक्ते किं मितबुक् इत्युक्ते किम् ऋतबुक् <disagree> इत्युक्ते किम् इदानीं विना भगिति भवती भवती किं चिन्तयति तत्र हितबुक् इत्युक्ते इदानीम् अहं चिन्तयामि अत्र नववर्षदिनः वयं सर्वे मिलित्वा कुत्र गच्छामः तत् अस्माकं वर्गः न भवेत् एव इति प्लेजेण्ट् भवति परन्तु तत् हितकारी वा यत् प्लेजेण्ट् अस्ति समाधानं ददाति तत् हितकारी भवेत इति नास्ति खलु मित मित इत्युक्ते रुत इत्युक्ते किं किम चिन्तयति भगिनी वीणा भगिनी ऋत् न जानामि भगिनि <laughs> चिन्ता मास्तु हित हितकायी मित मित इति मापनं मित मा मा इति धातु मापनं केल्क्युलेटेड् अमौण्ट् रुत तु ऋतुचर्या अनुसरु अनुसृत्य हितकारी मित सम्यक प्रमाणं ऋतुचर्या अनुसरेण यदा तत्र शैत्यमस्ति इदानीम् अहं तत् ऐस्क्रीम् uh -huh. खादामि सम्यक् वा नास्ति uh -huh. no, no, okay, okay. uh -huh. तत्र काले यदि अहं तद् भर्जनं तत् कृत्वा तत्र सेव् भजिया इति खादामि तत् सम्यक् अस्ति वा वर्षाकाले औट्सैड् फ्रुड् स्ट्रीट् फुड् योग्यं वा वर्षाकाले न योग्यं तदेव दत्तमस्ति इदानीं पठतु <coughs> शक्नोति पर्यन्तं पठतु सत्यं खलु यः हितकारीभोजनं करोति यः यः मितं भोजनं करोति यः ऋतुम् अनुसृत्य भोजनं करोति सः एव निरोगः भवति किमस्ति अर्थबोधः किं जायते हितकारीभोजनं मितकारिभोजनं वदतु हा हितकारिभोजनं मि, नित, मितं भोजनं ऋतुम् यः कर, करोति सः निरोगः भवति रोगरहितत्व कदा प्राप्यते यदा वयं हितकारीकारिभोजनं हितकारी मितं भोजनम् इति भोजनम, तत्र समारम्भः वा तत्र लग्नसमारम्भे इटिङ्ग् इन् एक्सेस् न सिमितमात्र सिमितमात्र ऋतुम् अनुसृत्य भोजनं कुर्म, तदा एव वयं सर्वे निरोगः रोगरहितः रोगरहिताः इति भवितुम् अर्ह अस्तु हितकारी हितकारयि अग्रिमं पठतु एते त्रयः नियमाह स्वास्थ्यस्य कल्याणस्य च विशेष सर्वे सर्वत्र स्वीकृताः एतेषाम् नियमानाम् अनुसरणं कृत्वा मनुष्यः सहज सहजतया स्वस्य स्वास्थ्यं निर्वाहयितुम् इत्युक्ते hmm. एते त्रीणि नियमाः hmm. त्रयः नियमाः hmm. आरोग्यार्थं सर्वे जनाः स्व hmm. स्वीकृता, स्वीकृता भवन्तु तत्र hmm. hmm. तेन अनुसरेण एव अनुसरणेन एव सहजतया सहजतया स्वस्य स्वास्थ्यं निर्वाहयितुं शक्नोति ह्री गोल्डन् रूल्स् त्रयः hmm. स्वास्थ्यरक्षणार्थम् अत्र दत्ताः अस्तु धन्यवादः भगिनी अग्रिमे तत् अम्बिकापतिमहोदय पठति भा? ही, वा हितः अवगन्तुं न हितः हितकारी बेनिफिशियल् ओके हितकारी मम स्वास्थ्य अत्र पश्यन्तु तत्र विविधाः रोगाः सन्ति यदा मम शर्करा अधिकाः तत्र डायबिटिस् इति वयं वदामः खलु तत्र मम कृते मिष्ठान्नं योग्यं वा हितकारी वा मम हिताय भवति वा आरोग्यस्य स्वास्थ्यस्य रक्षणं भवति वा यदा अहं सदैव तत् शर्कराम् एव खादामि तत् हित न हिताः okay. okay, तत्र बालकस्य कृते बालकाः तेषां तत्र अधिकमात्रप्रमाणात् तत् केल्शियम् अन्ये ये द्रव्याः मूलद्रव्याः सन्ति मूलद्रव्याणि सन्ति अन्यानि मूलद्रव्याणि तस्य आवश्यकता अधिकमात्रेण भासते तत् बालकस्य कृते हिताय ये द्रव्याः ये द्रव्याणि यानि okay. द्रव्याणि सन्ति hmm. तत् हितकारी बालकस्य कृते हितकारी हितकारी ओके भगिनी थेङ्क्यू अस्तु धन्यवादः भगिनी धन्यवाद अग्रिमे अम्बिकापतिमहोदय पठति वा हितबुक् इत्यस्य अर्थः ततः हितबुक् इत्यस्य अर्थः अस्ति यत् मनुष्यः हित हितकरं भोजनं सेवयेत् mm -hmm. यानि वस्तूनि शरीरस्य बो भोषणं कुर्वन्ति शरीरे mm -hmm. बलं वर्धयन्ति mm -hmm. बलं वर्ध अङ्गानम् अङ्गानं दृ द्र, दृढीकरणं च कुर्वन्ति तेषाम् mm. एव सेव सेवनं किमस्ति अत्र हितबुक् mm. शब्दस्य अर्थ uh, हितबुक् सर्वस्य अर्थः uh, हितबुक् अर्थः um, चेत् अस्ति यक् मनुषः दोस् uh, पीपल् हितकं भोजनं सेवयेत् हितकरं मम स्वास्थ्यवर्धनार्थं हितकरं पदार्थं तस्य एव सेवनं शरीरस्य पोषणं कुर्वन्ति शरीरे बलं वर्धयन्ति अङ्गानां दृढीकरणं कुर्वन्ति तेषाम् एव सेवनं करणीयम् अस्तु अन्तिम अन्तिमम् अपि पठतु मित्तबुक् इत्युक्ते मित्रबुक् इत्युक्ते आ, समुचीन समुचीतमात्राया मात्रया पदार्थसेवनं पदार्थसेवनं यावत् प्रकृति आ, रूपेण प्रकृतिकरूपेण प्रतिक प्रकृतिकरूपेण प्रोडीन् विडामिन मेधः लवणम् इत्यादीनां सेवनं येन येन शक्तिः अङ्का अङ्कविकासः च भवति तावत् एव सेवनं भवेत् <coughs> इत्युक्ते किं मितम् इत्युक्ते मित अधिक अधिकभोजनं मितभोजनं सम्यक् तत्र समुचितमात्रया पदार्थसेवनं समुचितमात्रया योग्य प्रमाण प्रमाणित सीमित समुचित मात्रया, यदा अंतिम अग्रिम वाक्यम पश्यवृतिपेण प्रोटीन विटा मेद लवणम इतना सेवनम यति अंगसनम अ पदार्थ सेवनम न करनीय अस्तु मया यदि अहम् अहं रुचिः तत् मधुरा इति रुचिः प्रिया मम कृते परन्तु तत्र अधिकमात्रया यदि अहं सेवनं करोमि तद्योग्यं भवति वा नास्ति अस्तु अधिकमात्रया ना उपदंशम् अवलेहस्य सेवनं न तत् अवलेह तस्य प्रमाण प्रमाणे एव तस्य ग्रहणं भवेत् मात्र एव स्वीकृत्य तत्र तस्य भवनं ग्रहणं भवेत् मेदः तत्र लवणमपि येन शक्तिः अङ्गविकासः भवति प्राकृतिकरूपेण अतीवमहत्त्वपूर्णशब्दः पश्यन्तु सर्वे जनाः वदन्ति तत्र ओक्रा इति लेडिस् फिङ्गर् तत् तत् उपयोगी उपयोगी हितकारी कस्य कृते स्वास्थ्यस्य कृते शरीरवर्धनं तत्र अस्थिविकासः कृते उपयोग उपयोगिनी इति परन्तु यदा अहं तैलम् उपयुज्य तत् भर्जनं कृत्वा यदि डीप्लिफ्रैड् इति वदामः चेत् तेन mm. मम अङ्गविकासः भवति वा mm. तत्र प्राकृतिकरूपेण प्रोटीन् विटामिन् न तिष्ठन्ति एव हा प्राकृतिकद्रव्याणां नाशनम् एव भवति तत् न करणीयम् अतः प्राकृतिकरूपेण अतीवमहत्त्वपूर्णशब्दः प्रकृतिकरूपेण सेवनं भवेत् समुचितमात्रां स्वीकृत्य पदार्थसेवनं भवेत् इति अस्ति स्पष्टं वा अस्तु धन्यवादः महोदय अग्रिममस्ति ओगस्ट् महोदय पठति वा स्वस्थः <laughs> आहारः इति mm -hmm. न्यूनत न्यूनतमपरि वर्तनेन व्याभिचारेण <laughs> न्यूनतमपरिवर्तनेन परिवर्तनेन व्याभिचारेण च चा... uh -huh. निर्मितः अस्ति इति अर्थः स्वस्य आहार न्यूनतमपरिवर्तनेन व्यभिचारेण च चा निर्मितः न्यूनतमपरिवर्तनं प्राकृतिकमात्रेण ये ये मूलद्रव्य यानि यानि मूलद्रव्याणि सन्ति तत्र परिवर्तनं न भवेत् न्यूनतमपरिवर्तनं तत्र रा फुड् वक्तुं न शक्नुमः वयम् परन्तु परिवर्तनं तु करणीयमस्ति तत्र पाकक्रियायाः उपयोजनं तु भवति एव परन्तु तत् न्यूनतम भवेत् मूलद्रव्याणां नाशनं न ना भवेत् इति व्यभिचारेण इत्युक्ते तत्र परिवर्तनम् एक्सेसिव् परिवर्तनं एक्सेसिव तत्र व्यभिचारेण तत्र रूपस्य गुणस्य तत्र मूलद्रव्याणामपि नाशनमेव भवति तत् न भवेत् न्यूनतमपरिवर्तनेन व्यभिचारेण च चा निर्मितः अस्ति इति स्वस्य आहारः स्वास्थ्यवर्धकः आहारः इति अस्ति अग्रिमं वाक्यं पठतु तत् स्पष्टता अधिकतया भवेत् अस्मिन् युगेताः पकोडाः वाय mm -hmm. चाय चायः इष्टान्नानि mm -hmm. विविधानि रसायनानि mm -hmm. पेयानि च स्वस्थ्याय स्थाय हानकार निनका, हा, हानिकारकाः सन्ति भवान् भवान् तत् चाट् इत्युक्ते प्रथमवारमेव पठितवान् वा चाट् इत्युक्ते किम् अन्य कोऽपि जानाति वा चाट् इत्युक्ते पानिपुरि मसालापुरि समोसा भेल्पुरि बम्बैया भेल्पुरि फास्ट् तत्र वी आर् फ्रोम् मुम्बै एण्ड् वी रियली लव् दट् चाट् भेल्पुरि इट् वेरि फेमस् बम्बै चौपाटी भेल्पुरिषयः तत् चाट् पकोडा इति डीप्ली फ्रैड् अगस्ट् महोदय तत् तत् आलुकं वा तत् पोटेटो उपयुज्य डीप्लि फ्रैड् ऐटम् देट् पकोडा चायः इति तु टी इति अतः विविधानी विविधानि रसायनानि पेयानि तत् ड्रिङ्क्स् इति वक्तुं शक्नुमः रस हा तत्र फलस्य सेवनं न करणीयं परन्तु केचन जना फल फलं न स्वीकृत्य तत्र ते किं कुर्वन्ति तत् जूस् इति रसायनानि पेयानी, जूस मध्ये तत्र विविधानि अन्यानी अंशानि तत मिलित्वा तत्र घटकानि मिलित्वा तत् पेयम् इति तत् स्वास्थ्याय हानिकारकाः सन्ति मिष्टान्नम् इत्युक्ते केक्स् पेस्ट्री न तु अति अतीव मधुराः ये पदार्थाः स्वास्थ्याय हानिकारकाः सन्ति भगिनि पेयानि इत्युक्ते पेयानि पेयं पेयं तत् ज्यूसेस् डिफ्रेण्ट् टैप्स् आफ् ज्यूसेस् तत्र वैद्याः वदन्ति खलु फलस्य ग्रहणं भवेत् एवं रस इत्युक्ते तत्र किं भवति तत् गोज़वे ्यूबर् पर् गो सो डेडिस् स्वास्थ्याय न हानिकार स्वास्थ्याय तत्र हितकारकः इति नास्ति हानिकारकः एव तस्य सेवा से न भवेत् अग्रिमं वाक्यं पठतु आगस्ट् महोदय स्वास्थ्यरक्षणाय स्वास्थ्यरक्षणाय <coughs> आवश्यक आवश्यकता अस्ति भोजनं समुचितमात्रायां ग्रहणं करणीयम् इति समुचितमात्रायां ग्रहणं हितबुक् मितबुक् हितकारि ये घटकाः हानिकारकाः तेषां त्यजनं ये हितकारकाः तेषाम् एव ग्रहणं हितबुक् समुचितमात्रायां ग्रहणं यद् रोचते तस्य एव अधिकमात्रेण ग्रहणम् इति न समुचित उचितमात्रायां तस्य ग्रहणं करणीयम् इति मित् बुक् अस्तु महोदय धन्यवादः अग्रिमे तद्भारतमहोदय पठति वा ऋत् बुक् इति बोधयति ततः आरभ्य ऋत् बुक् इति बोधयति ऋतूनाम् अनुसरणम् कृत्वा आहारग्रहणम् अस्मिन् विषये विश्वस्य सर्वेषां स्वास्थ्यविशेष विशेषत विशेषज्ञानां स्वास्थ्यविशेषतज्ञानां ये जनाः तज्ञाः सन्ति स्वास्थ्यविषये आरोग्यस्य विषये डायटिशियन् न्यूट्रिशनिस्ट् तत्र स्वास्थ्यविशेष तज्ञानां षष्ठी रूपं तज्ञानां तेषां अग्रिमे पठतु एकम् एकमेव मतं यत् स्वस्थ आहारस्य अनुसरणं कृत्वा मनुष्यः सम्पूर्णः सम्पूर्णः सम्पूर्णं स्वास्थ्यं दीर्घायुः च प्राप् प्राप्तुं शक्नोति इति किं दत्तमस्ति अत्र भारतमहोदय ऋतु ऋतूनाम् अनुसरणं मुक् सम्यक् आहार खादितुम् अस्मिन् विषये विश् विश्वस्य विज्ञ स्वास्थ्यविशेषणानां तज्ञानाम् आहारतज्ञानाम् इति अपि वक्तुं शक्य आहारतज्ञाः अनन्तरं स्वास्थ्यतज्ञाः तद्विशेष विशेषतज्ञाः येषां समीपे विशेषज्ञानमस्ति तेषां मतं किं किमस्ति तेषां मतं महोदय तत्र वी आर् बोट् वि एवम् अस्ति खलु स्वस्थ आहारस्य अनुसरणं कृत्वा एव मनुष्यः सम्पूर्णं स्वास्थ्यं दीर्घायुः दीर्घायुः इत्युक्ते किं महोदय आरोग्यं शक्नोति आहारस्य महत्त्वम् अत्र वर्णितमस्ति कथाया द्वारे सम्यक् अस्ति वा स्पष्टमस्ति महोदय अस्माभिः किं करणीयम् षड्रिस षड्रसपरिपूर्ण आहारस्य ग्रहणम् आहारद्रव्याणाम् स्वाभाविकः प्रकृतिकगुणः यत् तस्य नाशनं न कृत्वा ग्रहणम् आहारग्रहणं करणीयम् इति अस्ति एकवारं तत्र जालपुटे किं दत्तमस्ति तत् एकवारं पश्यामः अनन्तरम् वयम् एकनिमिषं तत्र एवमस्य जयन्ति भगिनी पठति वा रुचिवाचका दृश्यते खलु बेनी, पठामि एकवारं ऋचीवाचकाः अवधेयं रुचिः इङ्ग्लीष् मध्ये मधुरः मधुरः स्वीट् आम्ल आम् सारि आम्लः सा कटुः पञ्चन् तत्र जम्तफलं दृश्यते किल पञ्चन् इति मिर्चिका दृश्यते इति दृश्यते मरीचिका अनन्तरं कषायः कषायः अष्टुञ्जन् आम्लफलं दृश्यते आमलकम् इति वदतु आमलकम् अस्तु भिन् आमलकं तिक्तः बिट्टर् करवेल्लम् इति अस्तु अनन्तरम् लवणः साल्टि साल्ट् लवणं लवण लवणः संयोजयतु शर्करा मधुरं जम्बीरफलं जम्बीरफलं आम्लं एव आगच्छति रियलि इट् इस् कन्फ्यूसिङ्ग् परन्तु तत् कटुः इत्युक्ते स्पैसिक्तः इत्युक्ते बिटर् इति अस्ति क्वथितं क्वथितं साम्बार् भवति मधुरम् अस्ति वा बेनि मधुरं मधुरं मधुरं स्पैसि एव अस्ति खलु भवती सम्यक्रीत्या जानाति क्वथितं मरीचिकाकटुः तथविकटुः इत्युक्ते आन्सर् तत्र वस्तुतः तत् क्वथितम् इति मिश्र मिश्ररुचिः तत्र कटुः अपि अस्ति किञ्चित् तिक्तः तिक्तः परन्तु कषायः अपि अस्ति खलु दाडिममपि दाडिममपि कषाय टेस्ट् कषाय कषायञ्चित् सम्यक् सम्यक् दाडिमकषायः कारवेल्लः तिक्तः भवति तिक्तः तिक्तः क्वथितं लवणः भवति वा भगिनी क्वथितं लवणः समाधानं क्वथितमेव भवति समाधानं लवणम् अवशिष्यते तत्र परन्तु तत् क्वथितमेव समाधानं भवतु अर्हति यत् क्वथितं साम्बार् भवति भगिनि Mm -hmm. uh tada to uh, we put we put uh, we put uh, spicy tamarind also into the sambar so it is a mixture yeah, of taste yeah correct yes. mixture of taste yeah. acidity now the yavana yeah, yeah. ikina kavitum bhavati it's supposed atra to be balanced balance. yeah atra yavana meva samanam bhavati beni yeah correct correct uh -huh. correct bagini correct bagini astu astu astu but the salty वदामः चेत् तत् um. भिन्नः रुचिः खलु um. तत्र mm. क्वथितं क्वथितं तत्र गृञ्जनकं वा अस्ति वा गृञ्जनकम् इति गार्लिक् अस्ति वा क्वथितं मध्ये नूज् इट् इस् नाट् डेर् सो अस्तु लवणः परन्तु सर्वेषाम् अवगमनं तु सम्यक्रीत्या अभवत् एव अस्तु हा अस्तु तत् एतत् अतीवमहत्त्वपूर्णं नास्ति इदानीम् अस्माकं समीपे दशनिमिश निमिषाः सन्ति तत् हा किञ्चित् अभ्यासः अपि कुर्वन्ति भगिनी पठितु अभ्यासः तत् वाक्यं पठितु अभ्यासः अभ्यासः वाक्यं पठित्वा रिक्तस्थानं पूरयतु अद्यः अहम् अद्यः अहम् उपदंशम् स्वीकरोमि अम्ब आम्रस्य उपदं उपदंशः अतीव अतीवकटु कटु तिक् अतीव कटुः वा कटुः वा अस्तु भगिनि आम्रस्य आम्रस्य उपदशम् अतीव कटुः वा अत्र किमस्ति अद्यदिने अस्माभिः तत् पदार्थरुचिः पदार्थानां रुचिः एव आम्रस्य आम्र इति रा मेङ्गो इति अस्ति तस्य अपि उपदंश अस्ति खलु तत् अतीवकटुः इति नास्ति तत् आम्लकटु मिश्रणेन एव सिद्ध्यति तत् आम्रस्य उपदंश अतीवकटुः नास्ति मम सखा चायं पिबति सः शर्कराम् अधिकं स्वीकरोति शर्करायाः रुचिः मधुरम् मधुरः भवति वा मधु मधुरं भवति वा बेनि रुचिः इति रुचिः तत्र गुणदर्शयित्वा पुरुषवाचकं मधुर हुँ, हुँ, फलं मधुरं फलस्य रुचिः मधुरः रुचिः मधुरः मधुरः अग्रिमे ग्रीष्मकाले सर्वे जम्बीररसं पिबन्ति जम्बीरस्य रुचिः आम्ल आम्लम् आम्लः रुचिः आम्लः सत्यम् आम्ल अग्रिमं कारवेलं निम्बः मेथिका सर्वे दास् सन्ति कारवेलं निम्बः मेथिका सर्वे तिक्तः सन्ति कारवेलं हा सत्यं सत्यं क्षम्यतां बिटविति हा कारवेलं निम्बः अपि निम्बः तत्र कडुनिम्ब इति मेथिका मेथिका इस् फेनुग्रिक् फेनुग्रिक् इत्युक्ते वा सर्वे सर्वे तिक्ताः सन्ति तिक्ताः सन्ति तिन्त्रा तिन्त्रिणी सर्वेभ्यः न रोचते यतः तस्य रुचिः आम्ल मस्ति अस्ति सत्यम् अग्रिमं गृञ्जनकं दाडीमः च रुचिकर रुचिकराव। तयो तयोः रुचिः भवति मधुरः मधुरौ न तद् गृञ्जनकम् इत्युक्ते कषाय भवति भगिनी कषाय गार्लिक इति किञ्चित् स्पैसि इति अस्ति खलु गृञ्जनकं गृञ्जनकम् इत्युक्ते गार्लिक् अबेनि गृञ्जनकम् इत्युक्ते गार्लिक् दाडिमः दाडिमः भवति कषायः लास्ट् अभ्यास लास्ट् अभ्यासे गत अभ्यासे दाडिमः कषायः इति कषायः परन्तु गृञ्जनकं कषायः नास्ति खलु गृञ्जनकं तु कटुः इति स्पैसि इति Yeah, it's mm. also very very astringent, astringent. astringent. When you really eat the raw one, it is very astringent. Yeah, it is is Kashaya एव स्वीकुर्मः सत्यं सत्यं यदा तस्वय iti question, Bhavati, भवति किल Bhavati. भवति वा न तयोः रुचिः कषायः रुचिः पुरुषवाचक रुचिः कषायः Bhavati, eva. <im> mm. <हाँ> यत् वीणा <immon> भगिनी उक्तवती तत् पेष्टनं कृत्वा तु स्पैसि भवितुमर्हति परन्तु रा गार्लिक् इति गृञ्जनकं वयं खादामः चेत् तत् कषायः एव हा तयोः रुचिः कषायः भवति एवं न जानाति अहं गार्लिक् न खादामि अतः या भगिनी अहमपि न खादामि बट् ऐ नैम् इट् इस् इट् इस्रे भगिनी अस्तु अस्तु अस्तु अहमपि सर्वेषु पदार्थेषु तत् न तत्र मेलनं तत् मिश्रणं न करोमि परन्तु गार्लिक् रुचिः कषायरुचिः तु भवति एव स्मेल् स्मेल् तु ऐ मीन् स्ट्राङ्ग् भवति इति जानामि सत्यं सत्यम् अष्टिञ्जम् अष्ट सत्यं सत्यं तत्र तथैव अस्माकम् आहारपुराणः समाप्तः अद्यदिनस्य वेणी कथायाः विषये एक एक सुक्ति अस्ति अस्माकं तमिळ् मध्ये वदामि वा एकम् एकवारं यः एकवारं यः खादति सः योगी भवति द्विवारं यः खादति सः भोगी भवति त्रिवारं यः खादति सः रोगी भवति इति एक श्रुत्य तमिल् उत्तमं वार्ताम् उत्तमम् सत्यमेव सत्यमेव अन्ये अन्येषां मनसि किं किम् आगतः मनसि विचारः आगतः अस्ति कृपया वदन्तु अन्यकोपि वक्तुमिच्छति वा आहारपुराणस्य अद्यदिनस्य विषयस्य विषये वा किमपि चिन्तनमस्ति चेत् वदन्तु सर्वे श्याम्रा भगिनि अपि अस्माभिः क्रमेण नियमेन आहारं खादे आरोग्यम् अधिकं सम्यक् भवति सत्यं सत्यं षट् प्रतिशत् सत्यम् उत्तमम् उत्तमं शरीरम् आहारम् एव भवति अकार्डिङ्ग्लि सत्य सत्यं सम्यक् आहार इति आरोग्यस्य आवश्यकता अस्तु भारतमहोदय वक्तुमिच्छति वा भारतमहोदय आगस्ट् महोदय भारतमहोदय वदतु ओके आहारः आहारः सम्यक् खाद् खा खाद् खादितु विरुद्ध आहारः न खादतु सम्यक, विषम आहारः इति एका संज्ञा अस्ति विषम आहारः न स्वीकरणीयः इति सत्यं सत्यं सत्यम् अगोस्टमहोदय मीताहारः स्वस्थ्याय सम्यक् अस्ति मीतप्रमाणित प्रमाणितमात्रायां सम्यक् मात्रायां आहारग्रहणं भवेत् इति भवान् चिन्तयति उत्तम, उत्तम, उत्तमम् अन्य कोऽपि जयन्ति भगिनी इतोपि किं वदति वा इच्छति वा तत् भगवद्गीतायां श्लोक एव मनसि भवति आहारः सात्विकं भवति भवति चेत् तस्य ता, गुणाः अपि सात्विकं भवति न आलस्यं भवति चतुराः भवति सम्यक् कार्यं करोति एतादृशानि कार्याणि सात्विककार्याणि भवन्ति आहारं सात्विकं भवति चेत् कार्यमपि चिन्तनमपि सात्विकं भवति सत्यं सत्यं सत्यम् सत्यम, उत्तमं विना भगिनी आयुसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः स्निग्धा स्थिराहृद्याः आहार सात्विकप्रियाः उत्तमम् उत्तमम् सात्विक आहार इति उत्तमम् उत्तमं बहु उत्तमम् अस्तु धन्यवादः भगिनी धन्यवादाः शान्तिमन्त्रेण अम्बिकापतिमहोदय शान्तिमन्त्रं वदति वा ओ सर्वे भवन्तु सुखिनः सर्वे शन्तु निरामियाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत् ॐ शान्तिः शान्तिः शान्तिः हरिः ओम् तत्सदे श्रीगुरुभ्यो नमः हरिः ओम्